सर्वे कौरवसैन्यस्य स पुत्रामत्यसैनिकाः संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः दुर्योधनेन ते वीरा मानिताश्च विशेषतः प्राणां त्यक्ष्यन्ति सङ्ग्रामे इति मे समा यद्यपि भीष्मस्य वृत्तिरस्मासु च द्रोणस्य च महाबाहो कृपस्य च महात्मनः अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः तस्मात् त्यक्ष्यन्ति सङ्ग्रामे प्राणानपि सुदुस्त्यजान् सर्वे दिव्यास्त्र विद्वांसः सर्वे धर्मपरायणाः अजेयास्येति मे बुद्धिरपि देवैः स वासवैः अमर्षी नित्यसंरब्धस्तत्र कर्णो महारथः सर्वास्त्रविदनाधृश्यो ह्यभेद्यकवचावृतः अनिर्जित्यरणे सर्वानेतान् पुरुषसत्तमान् अशक्यो ह्यसहायेन हन्तुम् दुर्योधनस्त्वया न निद्रामभिगच्छामि चिन्तयानो वृकोदर अतिसर्वान् धनुर्ग्राहान्सूतपुत्रस्य लाघवम् वैशम्पायनुवाच एतद्वचनमाज्ञाय भीमसेनोत्यवर्षणः बभूव विमनास्त्रस्तो न चैवोवाच किञ्चन तयोः संवदतोरेवम् तदा पाण्डवयोर्द्वयोः आजगाम महायोगी व्यासः सोऽभिगम्य यथा न्यायम् पाण्डवैः प्रतिपूजितः युधिष्ठिरमिदम् वाक्यमुवाच वदताम् वरः व्यास उवाच युधिष्ठिरमहाबाहो वेद्मि ते हृदय स्थितम् भीष्मा द्रोण् कृप् कर्णा द्रोणपुत्रच भारत दुर्योधना नृपसुता था यत्ते ये भयम मित्र हृदय सतते तत्ते हम नाशय्या कर्मण तछ्रुवा धृतिमा स्था कर्मण राजेन्द्र तत क्षिप्र जहि तत एकान्तमुन्नीय पाराशर्यो युधिष्ठिरं युधिष्ठिरम् अब्रवीदुपपन्नार्थमिदम् वाक्यविशारदः श्रेयसस्ते परः कालः प्राप्तो भरत सत्तम येनाभिभविता शत्रून्नृणे पार्थो धनुर्धरः गृहाणे माम् मया प्रोक्ताम् सिद्धिम् मूर्तिमतीमिव विद्याम् नाम प्रपन्नाय ब्रवीमि यामवाप्यमहाबाहुरर्जुनः साधयिष्यति अस्त्रहेतोर्महेन्द्रम् च रुद्रम् चैवाभिगच्छतु वरुणम् च कुबेरम् च धर्मराजम् च पाण्डव शक्तो ह्येष सुरान् द्रष्टुम् तपसा विक्रमेण च ऋषिरेष महातेजा नारायण सहायवान् पुराणः देवस्त्वजेयो विष्णुरच्युतः अस्त्राणीन्द्र च रुद्राच्च लोकपालेभ्य एव समादाय महाबाहुर्महत् कर्म करिष्यति वनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम् निवासार्थाय यद्युक्तम् भवेद्वः पृथिवीपते एकत्र चिरवासो हि न प्रीतिजननो तापसानां च सर्वेषां भवेदुद्वेगकारकः मृगाणामुपयोगश्च वीरुदौषधि संक्षयः बिभर्षि च बहून् विप्रान् वेदवेदाङ्गपारगान्